अथ द्वितीयकाण्डे पञ्चमप्रश्नः प्रारम्भः राष्ट्रः पुरोहितो देवानामासीत् स्वश्री असुराणादनगो स प्रत्यक्षं देवेभ्यो भागमवदत् परोक्षमसुरेभ्यः सर्वस्मै वै प्रत्यक्षं भागं वदन्ति यस्मा एव परोक्षं वदन्ति तस्य भागमुदितस्तस्मादिन्दो विभेदे वै राष्ट्रं विपर्यावर्तयति दन्ना दन्ना ये तृत्या ये तृत्या ै ब्रह्महत्यायीयं प्रतिगृहाणेन भविष्यन्ति भोवमिति पुराते संवत्सरादपि लोहादित्यस्मात् पुरा ृव्यैः देवारे ब्रह्मत्यायीस्वकृतमिरणत्तस्मादाहिता श्रुत्वा देव स्वकृत इत्यायेषु वासेस्यै ब्रह्मत्याये तुलीयं प्रतिगृह्णे वृणामहे कृष्णात्परा भविष्यन्ता मन्यामहे परा भूमेत्यावृशनात्मूयागु तिष्ठा नित्यप्रवेत् तस्मादा प्रश्नात् वृक्षाणां तिष्ठन्त्याये प्रत्यगृह्णं स निर्यासो भवत्तस्मान्निर्यासस्य नास्य नास्यै ब्रह्महत्यायै तृतीयं प्रत्यै प्रजां विन्दामहि का ममा विजनितो सम्भवामे प्रजां विन्दन्ते का ममा विजनितोसे खल्वाञ्जनं वा स्त्रियान्नवृति तोयारण्येतस्यैरा तस्यामारकोयाभ्यङ्गेतस्यै तिष्ठन्मायाप्रलिखते तस्यै खलतिरपमारीयाङ्गेतस्यै काणो या दतो श्यामधनुजा नृन्दते तस्यैकनखेया गुणत्यै क्लीगोया रजन्धकोया पर्णे न पिबदितस्य उन्माद पे को याधर्मेण विवजितस्यै सर्वस्तिश्रिन्धुरे दस्य लिना वापि वेदकर्मेण वा पात्रेण प्रजायै गोविधाय ष्टा हतपुत्र वीन्द्रंसा ममाह रक्तस्मिन्ेन्द्र उपहवमैत्य स्वाहेन्द्रवर्धस्वेदेव स्वाहेन्द्रचक्रवर्धस्वेदितस्मा तस्येन्द्रश्चत्रीत्सु मात्रम् छत्रस्मै वज्रिताभ्याय तावप्रोधामग्नेशोमा प्रहारावस्वैतिप्रभे मामभ्येतमिदौ भागच्छेतान्दाभ्यामेतमग्नेशो मेयमेकादशकपालं पूर्णमासे प्रायच्छत्तावप्रोतामहि सन्दष्टो वै स्वानशक्नुवाय इन्द्र आत्मनश्चेत रोरावजनयत्तच्चेतरुरयौध्यम्म एव गोषीतरोरयोर्ध्येदमेन गोषीतरोहतस्ताभ्यामेनो वा एनन्दतजिहितां प्राणो वै लक्षपानकृतस्तस्माद्यभ्यमानोऽन्वैलक्ष कृतो इति प्राणापानामेवात्मन्ते सर्वमायुरेदस देवतावृतान्विरभो येवार्थोर पौर्णमासेन रवद्घन् दिवाजेन पूर्णमास आमावास्यायां ज्यायेन्त्यस्मा त्वाग्नि पूर्णमासेनोदेवधन्वति अमावास्यायां तत्सृष्ठाप्यवात्रज्ञर्वज्रमादाय पुनरभ्याय तदेव प्रोताञ्ज्यावापृथिवी वा प्रहारावयोर्वी श्रुतैदेव प्रोतां व्रह्मृहे नक्षत्रमिताहमत्यसा वप्रवेदित्रविहितारस्मान्नक्षत्र चित्रविञ एवं जावा पृथिव्योर्वं वेदैरं वरोगच्छति स आभ्यामेव प्रसूद इन्द्रो वृत्रमहन्ते देवा वृत्रिमात्रे वैद्ययोप्रवेत्तयेव सतोभयेन मुजा तद्गौराहरत्तस्माभ्यतोभयेन भग्ने धृतमेतत् स्वामेव ब्रह्मवादिनावन्ति प्राजापत्यमिति ब्रूह्याम् पुत्रम् निरवासाय यदिष्टम् पुत्रम् दशनेन निरवसायन्ति इन्द्रं वृत्तं जग्लागो संवृताभिप्रापे पन्तस एतं वै मृतं पौर्णमासेन निर्वाप्यमवश्चरवेन वै समृतोपाहतयद्वयम् पूर्णमासेन निर्वाप्योपहतिभिश्चेन्द्रियेण दुष्टार्थमाज्ञेयमुष्टाकपालममावास्यायामपश्यतेन्द्रन्दसि तन्निरवत्ते न वै स्याया भवत्युत्रं मे जघृष इन्द्रियं वेर्यं पृथिवी सप्त औषधयो वेरुधो भूवन् से देवदस्त्वे सन्नयते चतुत्पशवौषधेभ्योऽध्यात्मान् समनयन् तत्प्रत्यतः अनयत् समायेन्दत्सा नयस्जान्नायत्रयं य प्रत्यदहुन्दत्प्रददुरः प्रदुक्पवः समरेषत् प्रत्यदक्षन्नदमयस्नेद्यत्त्यप्रवेदेददस्मे श्रतं कृतेत्यप्रवेत्तदस्मे सुखमकरवन्न्द्रयं बावास्मनमेत्यन्ददश्रयन्दच्छदस्य सुखपगमनेषत् प्रत्यदक्षन्चदवक्रन्नदमादिमतित्यप्रवेदेदस्मैतजिकृतेत्यप्रवेत्तदस्मेदक्षगुरुवन्तदेनमदनोत्तत्त्नाददत्तं ब्रह्मवादिनावदनत्तःपूर्वस् अच्छुब्स गुष्चित् भृन् verw सब्सुब्स १ुर्ण गुष्만 सब्सुब्स अम्बरअवदमनिक्छलपाराधमिदवन्नमारत्तुं देवदा प्रेषमेच्छन् सोऽह प्रवीरप्रणामकरी यस्पर समान विन्दददर्श्य प्रथमनभागधे उत्तमविरामनन्दनस्माद् अर्धभ्यः पूर्वेऽधिक्रीदेसो माभास्य अमृत्यागच्छत् तं देवा हविमर्चन् तामावैनाद्यवसुवदती तेन्द्रो हि देवा नाम पुष्टमाभास्य या अमाभासत् तं ब्रह्मराजनादं दिग्विजयदेव जगमुखां राज्यमिदवेश्व भिसमगच्छन्ते खल्वेन्द्रमित्येव प्रो यानि ब्रह्माभि समगच्छन्तेति ैतृश पूर्णमासो येन मुदेन्द्रो यते वै मृधपौर्णमानेन्द्रवाप्यो भवमासस्येन्द्र ऐन्द्रं दध्यमा भास्यायान् मा भास्यासेन्द्राय एवं विद्वान्तर्शपूर्णमासो युज देन्द्रविनो यजते अकुर्वतते देवा एतामिष्टिमवश्यन्नाट वैष्णवमेकादशकपादकौ सरस्वती जलुगो सरस्वते जलु दामोऽर्णमासकौ धर्गस्ताव्यारवन्दरो देवान् भरादुराय भ्रादुर्यवां सर्वोऽस्ताप्येदामिष्टवेदर्णमासे नैव ज्यं भ्रादुर्याय प्रदृज्ञाज्ञा वैष्णवे देवताश्च भ्रातृव्यंसा सर्वं वृन्दे पौर्णमासीमे नाहं दिनात्मनादृप्यस्मै दलादि यस्मै महता नृप्यत्यात्मना ददात्यन्यस्मै महता पूर्णमोह्य एवै नवीन्द्रकृतया वृषभिस्तर्प्यै दला औदम्बरं स्वागो न वृन्धे नागदश्रवान् देवताय वै स्वान् पाप्मादिपात्रङ्गिसंवत्सरप्रसन्नादिश्वत्या संवत्सर ष्टागमा संवत्सरमेवैरम् वृत्तर्व्रतमुतमालम्भय न्नमया जीदसोमयां वै देव वा एदं हृदया पुष् रथयत्यस्य प्राच्यस्याभिन्नरत्वं परस्तान्द्रमात्रे ष्टाग््याद्यस्तान्द्राय प्रदािरं वृता प्रयच्छति यज्ञा वै विष्णः पशवश एव पूर्वया सम्प्रदेजेदोत्तर या सम्मर्कुर्याद्योत्तरया सम्प्रदेजेत पूर्वया सम्मर्कुर्या फलदिनयज्ञ खमेव पूर्वया लभतेर या देवता एव पूर्वया वर्ध इन्द्रियमुत्तर या देव लोकमेव पूर्वयाभिजेतमनुष्यलोकमुत्तरया भोगितोस्मिन्नैवास्मि लोकेऽर्धं भवति दाक्षायण यज्ञेन सेशन्नयैन्मैत्रावर्ण्या वृक्षया मा भास्याया न येत पूर्णमा सेवै देवानागोषुस्तेषामेतुमर्धमासंषान् मैत्रावर्णेषा मा भास्या नयते देवैरेव सत्यागो संवादयसमासं देवैस्वान युवतिजन्म साक्षात्मा एष देवानभ्यारोह देवमभ्यारोह ते यथा खलु यज्ञेन येन नारदम् <Sess> ी स्त्रीपोलये देवाः सर्व न कृन्ति एष वै देव रथो यद्दर्शपूर्णमासो योदर्शपूर्णमासा विश्वासो मे लेवाले देवानापवश्यत्येतानिवाङ्गापरोगो संवत्सरस्येद्दर्शपूर्णमासोय एवं विद्वान्दर्शपूर्णमासोयजपलोकस्येव संवत्सरस्य प्रतिदधात्येदेवै संवत्सरस्य चक्षुषी यद्दर्शपूर्णमासूय एवं विद्वान्दर्शपूर्णमासूयज एताभ्यामेव सुवर्गं लोकमनुपश्यत्येशा वै देवानां विक्रान् दीर्घत्तर्शपूर्णमासूय एवं वित्त्वान्दर्शपूर्णमासो यदि च देवानामेव विक्रान् दिवनविक्रमद एष वै देवयानः पन्था यत्तर्शपूर्णमासूय एवं विद्वान्दर्शपूर्णमासोयज एव देवयानः पन्थास्तगो समारोहत्येतो वै देवानागो हरियत्तर्शपूर्णमासोय एवं विद्वान्दर्शपूर्णमासो यज देयामेव देवानागो हरिताभ्यामेवेभ्याम् <Sess> ीदेवानांर्शपोर्णमासो यान्तर्शपोर्णमासौ ते साक्षादेवर्शपोर्णमासो युज तेऽहान्यस्ते दत्तं भवति देवामिन्दे दर्शपोर्णमासा न्दो वा यतो भूतो मे द्यो हि पूर्णमासो यान्तो युजय नामास्याञ्जलमास्याञ्जपेयान्धमासस्य रात्रय प्रत्येतान्द्रन्मय ृणावहान् च पौर्णहास्याञ्च देवा इत्यन्त एते हि देवानां भागधे भागधा अस्मि मनुष्या भवन्ति एवम् वेदभूता निक्षुधमर्घम् सद्यो मनुष्या अर्थमासे देवा मासि पितरः संवत्सरे नस्पद यस्तस्मादहर्मनुष्या अचलन्ते अर्धमासे देवायुज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे नस्पद यत्फलम् गृह्णन्ति ये एवम् वेदहम् निक्षुधम् भ्रातृव्यम् देवा वैन च नै दुष्यश्रीङ्गदे सामन्नैवाश्रयन्कलो दिसामैवालो देवाश्रयङ्कृत देवेनान्त्यप्रश्रन्वा प्राणामन्धङ्करं प्रथमाराधं करोगोक इमेव लोक इमे लोका इमानेव लोकान् अभिजयति प्रभो वाजा इत्यनिवृत्ताम् राजा वृत्यामन्वाही प्रजापतिमेव प्रजापतिमारभते प्रवो वाजा इत्यस्मात् न्दे प्रभो इत्यन्वाहमासामासाभिेवै इत्यस्य प्रमावरुन्धेङ्कामय सर्वमायुर्यादिप्रभो वाजा इति तस्या नोच्यान्ततमुत्तरमर्थमानभेदप्राणेवास्याधार सर्वमायुरेनां वेदार्तामेव प्रातृङ्ग धात्यैषवाहरत्नस्वामिधीनेनान्य एवम् वेदा रत्नावेवन्यस्ताय संयुक्तास्य प्रलया पशुविरीयमानस्य विधिष्ठेरन्नद्धर्चो सङ्गधात् संयुक्त्येवैनास्तास्मै संयुक्तावरुद्धाः सर्वासि यज्ञ आयाहि वेदयत्या हृदन्तरीशवर्णस्तवा समित्य वा श्रीवर्णे सुन्द्रमस्मिन् लोकासीदास्तान्ते देवाब्रुहन्ने देवो विपर्युहामेत्यग् आयाहि वेदयेत्यस्मिन् लोके बृहदग्ने सुवीदे त्यमस्मिन् लोकादित्यन्ततो लोका वा इमो लोकावशाम्यतान्येवमन्वा हनयोर्लोकयो शान्तितो इमो लोको यामध्येवाह पञ्चदशमासस्य रात्रयोर्धमास दश संवत्सरः त्रीणि च शतानि षष्टिश्चाक्षराणि धावे संवत्सरस्य रात्रयोक्षर संवत्सरमाप्नोति ब्रह्मवाद्यमो स्त्रियस्तेनयदृष्ट्रियस्तेनयत्त्रियस्तेन <Oldal> यत्सामिधेन्यावृन्द <arlo should be> ृणेमः इत्यपि प्रवर्ततो देवा भवन्परा सुं दोतं इत्यन्वा भवत्यात्मनात्याह पवित्रमेवैतीयमानमेवैतयाग् त्याहपरिवर्णयो साक्षासुरान् वृणेत्वव्यवाहनमित्याह एव देवानान्तं मृणीदृषेयं वृणी देवन्तो रेवने सन्तत्यै परस्तादुर्वाचो परस्ता दुर्वाञ्चो मनुष्या पितरणां प्रमेकुडे अग्ने महागुणं हसीत्याह महान् शेषणेत्याह ब्राह्मणेषु एतमस्तु वनविप्राणमैत्याह विप्रा एुष्वागुंसकविशस्तैत्याः कवयो एते ब्रह्मसगुंसितैत्याः ब्रह्म सुगुंसितो कृताः वनैत्याह ुर्यस्य प्रियतमा प्रणयेनशेष देवपानो रागं निवार्णेन परिभूरसीत्या यजमानाय रमेवस्मै देवान युजमानायैत्या वर्धयत्यग्निवन्नावत्याः देवता एव पूर्वमयतः देवेभ्येवा गुहाताय एव देवानगुहाता स्मो वयमित्याह आत्मानमेव सत्पञ्च वैदसायजमानदेव देत्यामाचाराश्चायित्यग्निनाभयजमानं वृगणेयादुरेव स्वेदनय धृतव देवेत्यायजमानमेवैतेन वर्धैत देवाय भवत्याः देवान् एषावश्ववाराविद्याः विश्वग्र ेषामतिहे देवागो वीळेन्या नमस्याम नमस्याम इडामहेश्या वा ईळेन्या पितरा नमस्या देवाय या देवताय एव तद्यथा भागयदी त्रित्रचारणप्रोयात्रा जन्यस्य त्रय वा नैवास्मा पञ्चदशायात्रादश वीराजन्यस्व देवेन प्रतिष्ठापयतिष्ठुभाेन्द्रिया खलु वीराजन्यो तिष्ठवास्मायं वृह्णायत्रिया परिवर्जसं यात् वैश्व प्रष्ठा वैदिजत्यागताैवास्मे प्रोयात् प्रतिष्ठा कामस्यैस्तोमानां प्रतिष्ठा प्रतिष्ठित्यै चतुर्विघोषतमनप्रोयात् ब्रह्मवर्त्यकामस्य चतुर्विघोष त्रिक्षागाहित्रे गाहित्रे ब्रह्मवर्त्यवास्मे ब्रह्मवर्त्य समारन्ध त्रिघोशतमनं प्रोयात् न्नगामस्य त्रिपुंशदक्षरा विराडन्नम् विराट् विराजैवास्मान्नात्यंशतमरम् प्रोयात् प्रतिष्ठागामस्य द्वात्रिवंशदक्षरा नष्टछ्छन्दताम् प्रतिष्ठा प्रतिष्ठित्यैषट् त्रिवंशतमनम् क्रोयात् पशुकामस्य षट्त्रिवंशदक्षरा बृहदैवास्मै चतुश्चत्वारिवशतवनम् प्रोयात् इन्द्रियकामस्य चतुश्चत्वारिवशदक्षरात्ैवास्मावर्ध्यष्टाचत्वारिवशतमनम् क्रोयात् पशुगावस्याष्ट्राजत्वारिंशलक्षागताः पशुवजगत्यै वास्मै पशुनुवृद्धे सर्वाणि चन्दाकुश्चनुक्रूयात् बहुयाजिनः सर्वाणि वा एतस्य छन्दाकस्य ीतं मनुष्याणां राजीनावीतं विदृणामुपवेतं देवानाक्ष्मेव तिष्ठन्वाष्ठन्नष्ठन्नस्मिन्नेव लोके प्रतिष्ठतेषं दस्सदेवङ्गालोच्यो हृत्वा पार्था भवत बहिर्वेद्यो भविष्यञ्च वृन्धेथो परिमितं जैवामिदं चा वृन्धेथो ग्राम्यागुश्चैव पुशो नारण्यागुश्चावरुन्धेथो देव लोकं चैव मनुष्य लोकं चाभिजेति देवाभि सांविधेनैरनोच्चन्वपश्यन् स प्रजापतिश्चोष्णीमाघमाघारो वै देवायज्ञमन्वस्वितोष्णीमाघमाघारे यज्ञस्यानुष्ठास्तृप्यति प्रजया पशुभिर्य एवं वेदी याद्ययां जमाघारम्बट्कारं वा क्षिणाध्यन्त वैदेव लोकादेव लोकानेवाभिजय द्विवत्सरमेवास्मास्य लोकस्य समस्या इन्द्रय वै सुकस्वर्गमेवास्मि लोकं प्ररोचयत् श्रुमाघारयत् प्राणमा न्दस्यात्मेव <laughs> देवाश्रुणेरिवाद्रमेधे एव देवानन्दमृणेवायशीवं युषप्रबलम् आत्मनादुरिश्नमेयाम् ब्राह्मणायाधिप्रूयाद्यत्राणायाध्यात्मने ध्याहयत्राम् पराहात्मानम् आयुष्ट आयुष्टात्सन्देव देहेण देव्यानो दिवो विष्णु इवमेव तस्य चेष्टम् महिमानम् वहन्तिर्हिरण्यवर्मा प्रयन्दिन्याः समानमोर्वन्नत्यकृणन्ति ्राजरवावृणे इन्द्रावरुणाय नो विषेजनाय मिशर्मयच्छतम् दीर्घप्रयुज्युमनश्यति वयञ्जयैव प्रभावा, यत् शौर्या न रोचते बृहद् अभये पूर्वम् वृतनाशतस्थौ लीराय दैव्यातिथिश्यो नः प्रदे यक्षप्रदयेमन्नभो यथा वन्द्यानाहवेषु प्रभासि त्वमट्नैक्षवे पूरवे प्रत्नराजन् विद्योषा सत्त्वमग्ने प्रतीकेन प्रत्योषया तु धान्यः ये क्षद्विश्वा मयुलानि विद्वान् विवेश्रतोनुदाय द्वितीयकाण्डे पञ्चमः प्रश्नः समाप्तः